हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमापुराणे द्वितीयस्कन्धे दशमोऽध्यायः सवाच तस्मिन्नेव दिने नाम्ना तक्षकस्थं नृपोत्तमम् सप्तं ज्ञात्वा घृतूर्णं निसृतः पुरुषोत्तमः वृद्धब्राह्मणवेषेण तक्षकः पथि निरतः अपश्यत् कश्यपम् मार्गे व्रजन्तम् नृपतिम् प्रति तम् अपृच्छत् पन्नगोसौ ब्राह्मणम् मन्त्रवादिनम् क्व भवान् तरितो याति किञ्च कार्यम् चिकीर्षति कश्यपोवाच परिषितम् नृपश्रेष्ठम् तक्षकश्च प्रधक्षति तत्राहम् तरितो यामि नृपम् कर्तुम् अपज्वरम् मन्त्रोस्ति मम विप्रेन्द्रविशलाशकर किल जीविष्याम्यहं तं वै जीवितव्येधुना किल तक्षकोवाच अहं च पन्नवो ब्रह्मं तं धक्ष्यामि मयिपतिं निवर्तस्व न शक्तस्व मया दष्टं चिकित्सितुम् कश्यपोवाच अहं दष्टं वै जीवयिष्याम्यः सन्देहम् कामं मन्त्रबलेन वै तक्षकोवाच यदि तं जीवितुं यासि मया द्रष्टं नृपोत्तमम् मन्त्रशक्ति बलं विप्रदर्शये स्म मानख दक्ष्याम्येनं च न्यग्रोढं विषद्राभिरद्य वै कस्यवाच जीवैष्ये त्वया दष्टं दग्धं वा पन्नगोत्तमः अदशत्पन्नगो वृक्षं भस्मसाच्च चकारतम् उवाच कश्यपं भूयो जीवयेन ग्रियोत्तमः दृष्ट्वा भस्मीकृतं वृक्षं पन्नघेन विषाग्निना सर्वं भस्मसमाहृत्य कश्यपो वाक्यमब्रवीत् पश्य मन्त्रबलं मेद्य न्यग्रोधं पन्नगोत्तमः जीवय मध्यवृक्षं वै पश्य इत्युक्त्वा जलमादाय कश्यपो मन्त्रवित्तमः च भस्मराशिं तं मन्त्रिते नैव वारिणा तद्वारिषे च राजातो निग्रोध पूर्ववच्छुभ विस्मयं तक्षक प्राप्तु दृष्ट्वा तं जीवितं नगम् कश्यपं नाग ते परिश्रम सम्पादयामि तं कामं ब्रूहि कश्यपोवाच वित्तार्थी नृपतिम् मत्वा शप्तम् श्रुतः गृहाधं चोपकर्तुं विद्यया नृपसत्तमम् तक्षोवाच वित्तं गृहान् विप्रेन्द्र यावद् धीक्षिपाथि वा ददामि स्वगृहं याहि स कामोहं भवाम्यत श्रुतो उवाच तत् श्रुत्वा वचनं तस्य कश्यपरमार्थवेत् चिन्तयामास मनसा किं करोमि पुनः पुनः धनं गृहीत्वा स्वगृहं प्रयामि यद्यहं पुनः भविष्यति न मे केति लोके लोभसमाश्रयात् जीवितेथ नृपस्वेथ कीर्ति चेत् चला मम धनप्राप्ते च बहुधा भवेत् पुण्यं च जीवनात् रक्षणीयं यशकामं दिग्धनं यशस्वामिना सर्वस्व रघुणा पूर्वम् दत्तम् विप्राय कीर्तये हरिश्चन्द्रेण कर्णेन कीर्त्यर्थम् बहुवित्तरम् उपेक्षेयम् कथम् भूपम् दह्यमानम् विषाग्निना जीवितेद्य मया राज्ञी सुखम् सर्वजनस्य च अराजके भविता नातृ समुचयः प्रजानाशस्य प्रजाना पापं भविष्यति मृतेन्द्रुपे अपर्ति च लोकेशन लोभाष्य मनसा ध्यान स काश्यप गयुषं नृपति बुद्धिमत् आसन्न मूर्तिम राजन कश्यप गृहमेस धर्मात्मा धनम आदा तक्ष निवर्त कश्यप सप्तमे दिवसे नृपम हन्तु कामो जगामाशु नगरम् नागसौभयम् शुश्राव नगरस्यान्ते प्रासादस्थम् परीक्षितम् मणिमन्त्रौषधे कामम् रक्ष्यमाणम् असन्द्रितम् चिन्ताविष्टतला नागो विप्रशाप भयाकुल चिन्तयामास योगेन प्रविशेयम् गृहम् कथम् वञ्चयामे कथं चैनम् राजानम् पापकारिणम् विप्रशापाद्धतम् गूढम् विप्रपीडाकरम् शठम् पाण्डवानाम् कुले जातः कोऽपि नैतादृशो भवेत् तापसस्य कलेयेन मृतः सर्पो निवेशितः कृत्वा विगर्हितम् कर्म जानम् कालगतिम् नृप रक्षकान्धवने कृत्वा प्रासादमभिगम्य च मृत्युम् मञ्च ते राजावतदेकुलः तम् कथं दक्षयिष्यामि विप्रवाक्येन चोदितः न, चो न जानाति च मन्दात्मा मरणम् हनिवर्तनम् तेनासौ रक्षिकां स्थाप्य सौधारूढोद्यमोदते यदि वै वेतो मृत्यु देवेनामित तेजसा स कथम् परिवर्तेत कृतर्यत्नः तु कोटिभिः पाण्डवस्य च दायादो जानन् मृत्युम् गतम् जीवने मतिमासाय स्थितस्थाने निराकुल दानपुण्यादिकम् राजा कर्तुमर्हति सर्वथा धर्मेण हन्यते व्याधिर्येण शूचाश्वतम् भवेत् नो चेन् मृत्युविधिम् कृत्वा मरणम् सर्गलोकाय नरकाय अन्यथा भवे विजपीडा कृतम् च भूपते प्रशाप तथा घोर् आसन्ने मरणे किल न कोऽपि ब्राह्मण पार्श्वे य एनम् प्रतिबोधयेत् वेधता भीतो मृत्यु अनिवार्य सर्वथा इति सञ्चिन्त्य सर्पोसु सन्नागान्निकटे स्थितान् कृत्वा ताप स्वेशान्तान् प्राहिणो भुजङ्गवान् फलमूलादिकम् गृह्य रने नागोथ तक्षकः स्वयं च कीटरूपेण फलमध्ये ससारः निर्गता ते तदा नागाफलान्यादाय सत्वरः ते राजभवनम् प्राप्य स्थिता प्रासाद सन्निधौ रक्षका तापसान्दृष्ट्वा पप्रच्योतचिकेसितम् उच्योस्ते भूपतिम् द्रष्टुम् प्राप्ता स्मृत्य तपोवनात् अभिमन्यु सुतं वीरम् कुलार्कम् चारुदर्शनम् परिवर्धय प्राप्त मंत्री रात वन सब निवेदान मुनीन कृप्वाषेका दस फला भारतना कुल क्वा न दृष्टा रक्षक न श्रुतम तापसा सदर्शन किल आरोहाम वह तीचि आशीर्भिर्वर्धयित्वा दत्ताज्ञा प्रव्रजामयेच इत्याकर्ण्यव च तेषाम् तापसानाम् तु रक्षकः प्रत्युचुस्तान्द्रियान्मत्वा निदेशम् भूपतेर्यथा ना द्येवो दर्शनम् विप्राराज्ञस्यानो मतिः श्वः सर्वतापसेतत्र स्वागन्तव्यम् नृपालये अनारोहस्तु प्रासादो विप्राणामनि विप्रशाप भयाद्राज्ञा वितोस्ति न संचय तदुचुस्तान्नो विप्रा फलमूलजलानि ग्राहयन्तु सुरक्षकाः ते गत्वा पतिम् प्रोचु तापसान्नागताञ्जनः राजोवाचा नेध्रं पुच्छद्धं तापसां कार्यं प्रातरागमनं पुनः प्रणामं कथयद् सन्दर्शनम् मम ते गत्वा समाद समादाय फलमूलादिकं च यत् राज्ञे समर्पयामासु बहुमान पुरस्सरं गतेषु तेषु नागेषु विप्रवेशावृतेषु च फलान्यादाय राजासु सचिवान् निदमब्रवीत् सुरतो भक्षयन्त्रे जे फलानिेतानि सर्वश्च अद्यहम् चैकमेतद्वै फलम् विप्रार्थितम् इत्युक्त्वा तत् फलम् दत्त्वा श्रुद्भ्यश्चोत्तरासु करे कृत्वा फलम् पक्वम् ददातिपति स्वयम् विदारितम् फलम् राज्ञा तत्र क्रोबीरभूदणः भूदनुः भूदन स कृष्णानयनशास्ताम्रो दृष्टो भूपतिना स्वयम् तं दृष्ट्वा नुपतिप्राहे सचिवान् विस्मितानथ अस्थमभ्येति कविता विषादद्य भयम् अङ्गीकरोमि तं चापं कमेको मां दृशत्रयम् एवम् मुक्ता स राज्ञे राजेन्द्रो ग्रीवायां स न्यवेशयत् अत्तं या ते निवानाथे कालरूपी भयानक राजा संवेशन दापी महीपति मंत्रिणो विस्मय प्राप्त दुखिता घोरूप दुदुभुस्ते भयता चुक्रुषु रक्षक हाहाकारो महानू वेतो भोगी भोग बहु पौरुष नोवाच नृपति किंचित ना लोकरासुते उत्थे तागने विषजा तक्षकाननात् प्रज्ज्जाले नृपं ताशु गतप्राणं चकार हस्ताशु जीवितं राज्ञ तक्षको गगने गत जगद्दग्धं तु कुर्वाणम् दशूस्थम् गना सपपात्र गतप्राणो राजा दग्ध इव जना सर्वे मुतम् दृष्ट्वा नराधिपम् इति श्रीमद्देवी भागवते मा पुराणे षादशताब्द्याम् संहितायाम् द्वितीयस्कन्धे परीक्षिन्मरणम् नाम दशमोऽध्याय श्रीजगसम्विकायार्पणमस्तु